श्रीहरये नमः अथ पञ्चमोऽध्यायः मैत्रेय उवाच भभो भवान्यानिधनं प्रजापते असत्कृताय अवगम्य नारधान् स्वपार्षतः सैन्यं च तदत्वरर्बुभेर्विद्राविधं क्रोधम् अपारमादथे क्रुद्धस्तु धष्टोष्टपुटस्सधुर्झटेर्जटां तडिद्वग्निषटोग्ररोचिषम् उत्कृत्य रुद्रः सकसोत्थितो हसन् सूर्यदृ करालदंष्ट्रोज्ज्वलदग्निमूर्धजः कपालमालिविविदोत्यदायुधः तं किं करोमि इति कृष्णान्तमाह भद्राञ्जलिं भगवान् भूतनाथः दक्षं स यज्ञं जहि मद्भटाना त्वमग्रणी रुद्र भटां सखो मे मन्युना स देवदेवं परिचक्रमे विभुं मेनेतधात्मनाम् हसा महीयसां तातसख स किष्णम् तुद्रपार्षधैर् भृशं न धद् सुभैरवम् उद्यम्य शूलम् जगदन्त कान्तकम् सभ्राद्रवद्घोषणभूषणाङ्ग्रीह्ये अथर्विजोय च मानस तमः किमेतत् कुतये तत्र जोभूदिते द्विजा द्विजपन्युः वाता न वान्ति न हि सन्ति धस्यवः प्राचीनबर्ह्यर्जीवति होग्रदण्टः गावो न काल्यन्तयितं कुतो रजो लोगो तु किं प्रलयाय कल्पथे प्रसूतिमिश्रास्त्रिय उद्विग्नचित्रा ऊषुर्विपाहो वृजिनस्यैष तस्य यत्पश्यन्तीनां दुहितॄणां प्रेजसा सूतां सतीमवधत्यावनाघा यष्वन्तकाले व्युप्तजटा कलाभूनसुश्चर्पितदिग्गजेन्द्रखान् वितत्य ु भिन्न ते अमर्शयित्वा तमसह्यग् तेजसं मन्युप्लुदं दुर्विशखम् भृगुढ्या कालदं स्ट्राबिरुधस्तबगणम् स्यात् स्वस्ति किं कोप बह्वे वम्बुद्विग्नदृशोष्यमाने धनेन दक्षस्य मुकुर्मखात्मनः उत्पेदुरुत्पादधमासहस्रो भायावहादिवि भूमचौभर्य तावत्स रुद्रानुचरैर्मखो नानायुतेर् नानायुतेर्वामनकैरुधायुधैर् पिङ्कैपि शुङ्गैर्मकरोदराननैर्वर्याद्रवद्भिर्विदुरान्वरुद्यथा केचित् बभञ्जो प्राक् वंशं पत्नीशालां तथा परे सदा अग्नेद्रशालां विहारमकासनं रुरुजुर्यज्ञपात्राणि तथैके ज्ञेतनाशयन् कुण्डेश्वत्रयन् केचित् विविदुर्वेदि मे कलाः अभातन्तमुनिनन्ये एके पद्मीरतर्जयन् अपरे जह्रुहुर्देवान् प्रत्यासन्तान् पलायेतान् भृहुं भभन्त वीरभद्रप्रजापतिं चण्डीसभूषणं देवं बघं नन्दीस्वरोग्रहे सर्वयेवद्विजो दृष्ट्वा सधस्यास दिवौकसः धैरर्त्यमाना सुपृशं क्वारभिर्नैकधात्रवहन् तस्य श्मश्रूणि भगवान् भवः भृकोर्लुलुञ्चे सदसियोसश्मश्रु दर्शयन् भगस्य नेत्रे भगवान् पाधितस्य रुषा भुवे उज्जहारसतस्तोष्णा यः स पन्तं मसुषत् पूष्णश्चापादयद्धन्तान् कालिङ्गस्य यथा बलः सप्यमाने गरीमणीयो दतः आक्रं यो रसि दक्षस्य तधुद्धर्तुं नाशक्नोत् त्रयम्बकस्तधा शस्त्रैरस्त्रान्विधैरेवम् अर्भिन्न त्वचं हरः विस्मयम् परमापन्नो दद्यो पशुपतिशिरं दृष्ट्वा संयपनं योगम् पशूनां सपदिर्मघेन् यजमानपशोकस्य कायात्तेनाहरर्चिरः साधुवादस्तथा देषां कर्म तत्तस्य शंसतां भूतप्रेतपिशानाम् अन्येषां तद्विपर्ययः जुहावैतच्चिरस्तस्मिन् दक्षिणाग्नौ अमर्षितः तद्देवयजनं धक्त्वा प्रादिष्टुह्यकालयम् इति श्रीमद्भागवते महापुराणे चतुर्थस्कन्ते दक्षयज्ञविध्वंसो नाम पञ्चमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द सद्गुरु सद्गुरुमहाराज के जय